गरुडपुराणम् आचारकाण्डम् अध्यायम् 33 रुद्र उवाच सुदर्शनस्य पूजा मे वदशङ्गगदाधर ग्रहरोगाधिकम् सर्वम् यत्कृत्वा नाशमे दिवै हरिरुवाच सुदर्शनस्य चक्रस्य शृणुपूजाम्बृषध्वज स्नानमादौ प्रभुर्वीदपूजयेच्च हरिम् तदा मूलमन्त्रेण वैन्यासं मूलमन्त्रम् शृणुष्व च सहस्रारम्भुं फट् नमो मन्त्रः प्रणवपूर्वकः कथितसर्वदुष्टानाम् नाशको मन्त्रभेदकः ध्यायेत्सु ध्यायेत्सुदर्शनम् देवम् कृदि पद्मेमले शुभे शङ्ग चक्रगदा पद्मधरम् सौम्यम् किरीडिनम् आवाह्यमण्डले देवम् पूर्वोक्तविधिनाहर पूजयेद्गन्धपुष्पाद्यैरुपचारैर्महेश्वर पूजयित्वा जपेन्मन्त्रम् शतमष्टोत्तरम् नरः एवं ह्यः कुरुते सर्व सर्वरोगविनिर्मुक्तो विष्णुलोकम् समाप्नुयात् यतस्तोत्रम् च पेत्पश्चा सर्वव्याधिविनाशनम् नमः सुदर्शनायैव सहस्रादित्यवर्चसे ज्वालामाला प्रदीप्ताय सहस्राराय चक्षुषे सर्वदुष्टविनाशाय सर्वपादकमर्दिने सुचक्राय विचक्राय सर्वमन्त्रविभेदिने प्रसवित्रे जगधात्रे जगद्विध्वंसिने नमः पालनार्थाय लोकानाम् दुष्टासुरविनाशिने उग्राय चैव सौम्याय चण्डाय च नमो नमः नमश्चक्षुस्वरूपाय संसारभयभेदिने मायापञ्जरभेत्रे च शिवाय च नमो नमः ग्रहादिग्रहरूपाय ग्रहाणाम् पदये नमः कालाय मृत्यवे भीमाय च नमो नमः भक्तनुग्रहदात्रे च भक्तगोत्रे नमो नमः विष्णुरूपाय शान्दाय चायुधानां धराय च चा। विष्णुशस्त्राय चक्राय नमो भूयो नमो नमः यदि स्तोत्रं महापुण्यं चक्रस्य तव कीर्तितं यः परयाभक्रिया विष्णुलोकं स शक्रपूजाविधिं व्यश्च पडे द्रुद्रजितेन्द्रियः सपापम् भस्मसात्कृत्वा विष्णुलोकाय कल्पदे इति श्रीगारूढे महापुराणे आचार्यकाण्डे सुदर्शनपूजाविधिर्नामत्रयत्रिंशोऽध्यायः ओम्